श्रीहरये नमः अत षट्त्रिंशोऽध्यायका श्रीशुकबुवाच अत तर्ह्या गतो गोष्ठम् अरिष्टो वृषभासुरखां वप्राणि विषाणाग्रेण चोद्धरन् किञ्चित् किन्चित किञ्चित् सकृन्मुञ्जन् मूत्रयन् तब्धलोचनः यस्य निर्ह्रादिदेनाङ्गनिष्ठुरेण गवां नृणां पदत्यकालधो गर्भ श्रवन्ति स्म भयेन वै निर्विशन्ति गना यस्य कगुत्यचलसङ्कया तं सर्वे गोविन्दं शरणं ययुः भगवानपि तद्वीक्ष्य गोकुलं भयविद् ृतम् आ वैष्टेति गिरास्वासे वृषासुरम् उपाह्वयन् गोपालैः पशुभिर्मैः किमसत्तमः फलदर्भहागं दुष्टानां त्वद्भितानां दुरात्मना इत्यास्फोट्य अच्युतोरिष्टं तलशब्देन कोपयन् चक्ष्युरं से भुजा भोकं प्रसार्यावस्थितो हरिहे सोप्येवं कोऽपि तोरिष्ठणरोवनिमुल्लिखन् उद्यत्पुच्छमन्मेकघृत्तकृष्णम् उभात्रभत् अग्रन्यस्तविषाणाग्रस्तप्तास्तृक्लोचनोच्युतं कटाक्षिप्याद्रवत्पूर्णम् इन्द्रम् तोस निर्यत गृहीत्वा शृङ्गयोस्तं वा अष्टादशपदधानि सहा प्रत्यपोवाक भगवान् गचः शोपविद्धो भगवता पुनरुत्थाय सत्वरः आपतत्स्मिन्न सर्वाङ्गो निःस्वसन् स निगृह्य शृङ्गयो पधा समाक्रम्य निपात्य भूतले निष्पीडयामास यतारमम्बरम् कृत्वा विषाणेन जगानसोपत अश्रुक्व मन्मुत्तसकृत् समुत्सृजन् क्षिपंश्च पदा नवस्थिते क्षणः जगाम कृष्णम् निरुतेरतक्षयं पुष्पैः किरन्तो हरिमीडिरे सुराः एवं ककुत्मिनं हत्वा स्तूयमानस्वजातिभिः विवेशगोष्ठं सफलो गोपीनां नयनोत्सवः अरिष्टे निकते दैत्ये कृष्णेन अद्भुतकर्मणा कंसायादाह भगवान्नारतो देवदर्शणः यशोदायासुतां कन्यां देवक्या कृष्णमेव रामं रामं चरोहिणीपुत्रं वसुदेवेन बिभ्यत न्यस्तौ स्वमित्रेण देवैयाभ्यां ते पुरुषा निसंयतत् भोजपति गोपात् प्रचलितेन्द्रियहा निसा दत्त वसुदेव निवारितो नारदेन तत्सुतो मृत्युमात्मनः ज्ञात्वा लोकमयैः पाशैर्भवन्त सखभार्यया प्रतियाते तु देवर्षोकं स आभाष्यकेशिनं प्रेषयामासहन्येतां भवता रामकेशभो ततो मुष्टिकचाणोरशलदोषलघालकाधिकान् अमात्यान् हस्तिपांश्चैवन् समाहुयाखभोजराड् भो भो निशं वीरचाणूरमुष्टिकौ नन्दव्रजे किला सा ते सूतौ आनकधुन्दुबेहे रामकृष्णौ ततो मह्यं मृत्यु भवद्भयामिकसम्प्राप्तौ हन्येतां मल्लीलयां मञ्चा क्रियन्तां विविधा मल्लरङ्गपरिश्रताः पौराजानपधा सर्वे पश्यन्तु स्वैरसंयुगं महामात्रत्वया भद्ररङ्गत्वार्युपनीयताम् द्विपक्कुवलया भीटो जहिते न आरभ्यतां धनुर्या कश्च दुर्दश्यां यथाविधि विससन्तु पशून्मेद्यान्भूतराजायमीडुषे इत्याज्ञाप्यार्थतन्त्रज्ञ आहूय यदुपुङ्गवं गृहीत्वा पाणिना पाणिं ततो क्रूरमुवाचः भूपो दानपते मह्यं क्रियतां नान्यस्त्वत्तोहिततमो विद्यते भोजभृष्णिषो अतस्त्वामाश्रितः सौम्यकार्यगौरवसाधनं यथेन्द्रो विष्णुमाश्रित्य स्वार्थमद्यगमद्विभुः दश्च नन्दव्रजं तत्र सुधावानगदुन्धुभेः आसाते ताभिखानेन रथेनायनमाश्चिरम् निःसृष्ट किलब् मे मृत्युर्देवैर्वैकुण्ठसंश्रयैः तावानय समं गोपैर्नन्दात्यैषाप्युपायनैः घातयिष्ययिका नीतौ कालकल्पेन हस्तिनां यदि मुक्तौ तथो मल्लैर्घातये वैद्युतोपमैः तयोर्निकतयोस्तप्तान् वासुदेवपुरोगमान् तद्बन्धून्निकनिष्यामि वृष्णिभोजसार्हकान् उग्रसेनं च पितरं स्थविरं राज्य राज्यकामुकं तद्ब्रातरं देवकं च ये शाल्ये विद्विशो महा ततश्चैषामकी मित्रभवित्रीनष्टकण्टकान् जरा सन्तो मम गुरोर्द्विविदोदयितकान् सम्भरो नरको बाणो मय्येव कृतसौहृदाघान् तैरकं सूरभक्षीयान् हत्वा भोक्षेमहीं नृपान् रामकृष्णौ इहार्भगौ धनुर्मखनिरीक्षार्थं द्रष्टुं यदुपुरः श्रियं राजन्मनीक्षितं सत्प्रय तव सित्यसिद्ध्यो समं कुर्याद्दैवं हि फलसाधनं मनोरथान् करोत्युश्चेर्जनो दैव कथानपि युज्यते कर्षे शोकाभ्यां तथाप्याज्ञां करोमि ते श्रीसुक उवाच एवमादिश्य शाक्रूरं मन्त्रिणश्च विसृज्य सहा प्रविवेशगृहं कंसस्तथा क्रूरस्वमालयम् इति श्रीमद्भगवते मखापुराणे दशमस्कन्ते पूर्वार्ते अक्रूरसम्प्रेक्षणं नाम षट्त्रिंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गो